हरि ओं श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भगवत महापुराणे तृतीयस्कन्धे पञ्चविंशोऽध्याय व्यास उवाच गत्वा अयोध्यां नृपश्रेष्ठ गृहं राज्ञा सुहद्वृत शत्रुजिन् मातरं प्राह प्रणम्य शोकशङ्कुलां मात न ते मया पुत्र शपेते अवश्यं न, न शो गोत्र त्वया कार्यो मृतपुत्र पुत्रस्य ब्रह्म मानि स्वकर्मवशगो जीवो भुङ्क्ते भोगान् सुखासुखान् दासोऽस्मि तव भो मातः यथा मनोरमा तथा त्वमपि धर्मज्ञे न भेदोऽस्ति मनागपि अवश्यम् एव भोक्तव्यम् कृतम् कर्म शुभाशुभम् तस्मान् ते सुखे दुःखे कदाचन दुःखे दुःखाधिकान् पश्येत् सुखे पश्येत् सुखाधिकम् आत्मानम् शोक्याम् चतुभ्यामिव नापयेत् दैवाधीनमिदम् सर्वम् अस्माधीनम् कदाचन न शोकेन तदात्मानम् शोषयेन्मतिमान्न यथा दारुमयी योषा नडादीनां प्रचेतते तथा स्वकर्म वशुभो देयी सर्वत्र वर्तते दे। अहम् मनः गतो मात नाभवम् दुःखमानसः चिन्तयन् स कृतं कर्म भोक्तव्यम् इति वेद्मि च मृतो वरम् लुण्ठिता तत्करे मार्गे वस्त्रहीना तथा कृता पाथयञ्च हृतं सर्वं बालपुत्रा निराश्रया माता गृहीत्वा मां प्राप्ता भारद्वाजालोयम् समायात तथा धात्रे काबला मुनिभिः मुनिपत्नीभिः दया युक्तैः समन्ततः पोषिता फलनिवार्य वयं तत्र स्थिताश्रय दुःखं न मे तदायासीत् नाद्य धनागमे न ना वैरं न च मात्सर्यम् मम चित्ते तु निवार भक्षणम् श्रेष्ठम् राजभोगात् परन्तर्वे तदाशी नरकं याति न निवारशन क्वचित् धर्मस्याचरणम् कार्यम् पुरुषेण विजानता सञ्चित्येन्द्रियवर्गम् वै यथा नरकम् नर व्रजेत् मानुष्यम् दुर्लभम् मातृ खण्डेऽस्मिन् भारते शुभे आहारादि सुखम् नौनम् भवेत् सर्वासु योनिषु प्राप्य तम् मानुषम् देहम् कर्तव्यम् धर्मसाधनम् स्वर्गमोक्षपदं लोणाम् दुर्लभम् चान्ययोनिषु इत्युक्ता सा तदा तेन लीलावत्य तिलज्जिताय पुत्रशोकम् सा पराधात्म्यपुत्रापित्रायुधायिता हस्ता मातामहं तेत्र हृतं राज्यं तु न तं वारयितुं शक्ता तदाहं न सुतं मम यत्कृतं कर्म तेनैव न पराधोति मे सुत स्वमृतो सकृतेनैव कारणं तं द्वयो न च शोचामि तं पुत्रं तदा शोचामि तत्कृतं पुत्रम्मसि कल्याण भगिनी मे मनोरमा न क्रोधो न शोको मैत्री पुत्रीराज्य प्रजा पालय भगवत प्रसाद वचो मत नामनंदन जगानम रम्यम यूं मनोरमा निवसत त्र गू सर्वाहूय मंत्रि दैवज्ञानच्छय मुहूर्तम् दिवसम् शुभम् सिंहासनम् तथा हैमम् कारयित्वा मनोहरम् सिंहासने स्थिताम् देवीम् पूजयिष्ये सदाप्यम् स्थापयित्वा सुने देवीम् धर्मार्थ काममोक्षदाम् राजम् पश्चात्पयिष्यामि यथा सदा देवी सर्वैनागरिकै जनैः माननीया शिवाशक्ति सर्वकामार्थसिद्धिदा इत्युक्ता मन्त्रिणस्ते तु चक्रुर्वै राजशासनम् प्रासादम् कारयामासु शिल्पिभिषु मनोरमम् प्रतिमां करयित्वाहूर्तेऽथ शुभेदिने विहूय वेदज्ञान् स्थापयामास भूपतिः हवनम् विधिवत्कृत्वा कृत्वा पूजयित्वाथ देवताम् प्रासादे मतिमान् देव्या स्थापयामास भूमिपहे उत्सव तत्र संवृतो वादित्राणां च निस्वनैः ब्राह्मणानां वेदघोषे गाने तु नृपय प्रतिष्ठाप्य शिवां देवीं वेदवादिभिः पूजां नानाविधां राजा चकारातिविधानतः कृत्वा पूजाविधिं राजा राज्यं प्राप्य सपैतृकम् विख्यातश्चाम्बिका देवी कोसलेषु बभूवः राज्यं प्राप्य नृपः सर्वं सामन्तृप यथा राम स्वराज्ये भूत दिलीपश्च रघुर्यथा प्रजानां वै सुखं तद्वन् मर्यादापि तथा भवेत् धर्मो वर्णाश्रमाणां च चतुष्पादभवत् तथा न धर्मे रमते चित्तम् केषामपि महीतले ग्रामे ग्रामे च प्रासादाञ्चक्रु सर्वजनाधिपा देव्या पूजा तया प्रीत्या कोसलेषु प्रवर्तिता सुबाहूपि काचान्तु दु दुर्गायाम् प्रतिमां शुभाम् करयित्वा च प्रासादम् स्थापयामास भक्तितः तत्र तस्याजना सर्वे प्रेमभक्तिपरायणः पूजां चक्रुर्विधानेन यहाता दुर्गा देवी धरात देश महाराज तै भक्तिर्वधत सर्व भारत लोकेणसु सर्वथनीया भानी तो सर्वेशावत्ता शक्ति भक्तिर थान भवनृप आगमोक्तरथस्त्र जपध्यानपरायणः नवरात्रेषु सर्वेषु चक्रु सर्वे विधानतः अर्चनम् हवनम् यागम् देव्या भक्तिपरायनः इति श्रीमद्देवी भागवते महापुराणे तादृशतास्याम् संहितायाम् तृतीयस्कन्धे देवीस्थापनवर्णनम् नाम पञ्चविंशोऽध्यायः श्रीजगदम्बिकायार्पणमस्तु